अद्य नवतमः पाठः क्रियताम् मयैव करिष्यते अस्थाने पुमोद्भावः शिष्यः श्रीमन् नवमदशमकक्षयोः बालाः संस्कृतं पठन्ति इति वाक्यं किं शुद्धम् आचार्यः आम् शिष्यः दशमकक्षायाः बालाः संस्कृतं पठन्ति इति वाक्यम् आचार्यः तत्तु शुद्धम् शिष्यः प्रथमे वाक्ये कः दोषः तत् द्वितीये वाक्ये किमर्थम् अशु शुद्धता इति मया न अवगतम् आचार्यः कक्षाशब्दः स्त्रियां खलु तद्विशेषणभूतौ पूरणप्रत्ययान्तौ शब्दौ किं लिङ्गकौ भवेतां शिष्यः स्त्रीलिङ्गकौ तत्तु ज्ञायते एव मया ततः मया समासः कृतः पुमोद्भावश्च कृतः आचार्यः तत्रैव दोषः आचरितः शिष्यः दशमकक्षायाः इत्यत्रापि मया पूर्णप्रत्यान्त प्रत्ययान्तघटितः समासः एव कृतः पुश्च कृतः प्रयोगोऽयं दोषाय न इति भवता कथ्यते प्रथमे उदाहरणे किमर्थं दोषः उद्भाव... उद्भाव्यते आचार्यः पुंवद्भावप्रकरणं खलु एतत् अतः पुंवद्भावः कुत्र भवति इति भवता स्मर्तव्यं शिष्यः सामानादिकरण्ये सामानाधिकरण्ये सति तन्नाम कर्मधारी बहुव्रीहोच्च पुमोद्भावः उक्तः आचार्यः पुमोद्भावप्रकरणं किञ्चित् विस्तृतम् अस्ति तदा सां तावत् कर्मधार्यै बहुव्रीहौच्च एव भूमोद्भावस्य प्रसक्तिः द्वन्द्वे तु न स्मर्यते खलु एतत् शिष्यः आम् द्वन्द्वे सामानाधिकरण्यस्य अभावात् न भूमोद्भावप्रसक्तिः आचार्यः भवता प्रथमे उदाहरणे द्वन्द्वसमासः कृतः भूमोद्भावः शिष्यः सत्यं खलु धिक् मम अभिवेकिताम् द्वितीये उदाहरणे साधुता किमर्थम् इति इदानीं मया अवगतं तत्र तु कर्मधार्यः अतः पुमोद्भावः आचार्यः प्रथम उदाहरणे व्यस्तप्रयोगः एव शोभते नवम्याः दशम्याः च कक्षायाः इति शिष्यः यदि तत्र समासः क्रियेत तर्हि स्त्रीप्रत्ययसहितता स्यादेव अतः नवमीदशमकक्षयोः इति प्रयोगः करणीयः आचार्यः विषयस्पष्टतायै पुनरपि कानिचन उदाहरणानि दर्शयामि प्रथमम् उदाहरणम् अशुद्धं पञ्च ष श... पञ्चमषष्ठकक्षयोः शुद्धं यत् प्रयोगः पञ्चम्याः षष्ट्याः च कक्षायाः शुद्धसमस्तपदरूपं पञ्चमीषष्ठकक्षयोः द्वितीयमुदाहरणम् अशुद्धसमस्तरूपं प्रथमद्वि प्रथमद्वितीयपङ्क्त्योः शुद्ध शुद्धव्यस्तप्रयोगः प्रथमायाः द्वितीयायाः च पङ्क्त्याः शुद्धशुद्धसमस्तपदं प्रथमाद्वितीयपङ्क्त्योः तृतीयम् उदाहरणम् अशुद्धसमस्तपु पदम् एकादश एकादशद्वादश बालक बालिकयोः शुद्धव्यस्तप्रयोगः एकादश्याः द्वादश्याः च बालिकयोः शुद्धसमस्तपदम् एकादशी द्वादशबालिकयोः एकादशीद्वादशबालिकयोः इति अत्र द्वितीये स्तम्भे व्यस्तः प्रयोगः अस्ति तृतीये च समस्तप्रयोगः उभयोः अपि साधुता अस्थाने पुंवद्भावकरणात् प्रथमस्तम्भीयाः असाधवः अस्तु तर्हि अत्र समस्तपदस्य विषयः इति आगतः अस्ति तदर्थं किञ्चित् uh, समस्तपदस्य ज्ञानम् अपेक्षितं तस्य किञ्चित् भावः स्यात् इति अहं मन्ये अतः किञ्चित् न्यूनातिन्यूनं किञ्चित् uh, पुनर्स्मरणम् अथवा uh, परिचयः स्यात् इति अहं मन्ये समस्तपदः समस्तपदं नाम इति कोऽपि वदति वा uh, समस्तपदम् इत्युक्ते द्वे त्री त्रीणि वा अधिक पदानि समूहा सरलतया उच्यते चेत् संयुक्तपदमस्ति पदद्वयमस्ति पदत्रयमस्ति यावत् याव यावत् पदानि स भवितुमर्हति किन्तु संयुक्तपदमस्ति सत्यं यथा सन्धिः नाम अक्षराणां संयोजनं तथा पदानां संयोजनं नाम समस्तप्रयोगः समस्तप्रयोगः य यत्र संयुक्तपदं भवति तत्र मुख्यप्रकारचतुष्टयमस्ति एकनिमेष अस्तु इदानीं तत्पुरुषसमासः बहुव्रीहिसमासः द्वन्द्वसमासः अव्ययभावसमासः इति चतुष्टयं मुख्यं तत्पुरुषे अपि कमधारे अपि भवति तस्य तस्मिन् अन्तर्भूतः भवति अस्तु चिन्तयतु पदद्वयमस्ति पदद्वयोः कस्य प्राधान्यम् इति द्रष्टव्यं नाम उदाहरणार्थं यथा मया सर्वदा एव उच्यते उन्नतः बालः उन्नतः बालकः गच्छति उन्नतः उन्नतः बालकः उन्नतः बालकः गच्छति समस्तपदम् उच्यते उन्नतः बालकः गच्छति प्रश्नः इदानीं कः गच्छति बालकः गच्छति बालकः गच्छति खलु अतः अत्र मम प्रश्नः किमर्थम् इत्युक्ते क्रियापदस्य कस्य पद क्रियापदे कस्य पदस्य अन्वयः अस्ति नाम बालकस्य कस्य पदस्य सम्बन्धः क्रियापदस्य भवति क्रियापदस्य बाल बालकस्य च सम्बन्धः भवति अतः अत्र बालकस्य उन्नतः बालकः ऊन्नतबालकः इति वदामश्चेत् बालकस्य उन्नतस्य इति उन्नतस्य इति पदयोः बालकपदस्य प्राधान्यमस्ति किमर्थम् इति पृच्छति चेत् क्रियापदस्य अन्वयः अथवा सम्बन्धः बालकस्य एव अतः बालकस्य प्राधान्यं नाम अत्र उन्नतबालकः इत्यनयोः पदयोः उत्तरपदस्य प्राधान्यमस्ति पूर्वपदं नाम उन्नतः उन्नत इति पदमस्ति बालक इति उत्तरपदमस्ति उत्तरपदस्य पूर्वपदं पूर्वपदस्य प्राधान्यं नास्ति उत्तरपदस्य प्राधान्यमस्ति अतः तत्पुरुषसमासः विशेषतया अत्र कर्मधारे समासः इति उच्यते अनन्तरं विशेषपूर्वपद अपि अस्ति खलु अद्य श्रुणोतु महोदय श्रुणोतु इदानीम् अस्माकं सविधे बहु समयः नास्ति विशेषणपूर्वविशेषण उत्तर इति भिन्नविषयः इदानीं मुख्यविषयः अस्ति कस्य पदस्य प्राधान्यं तावदेव तत्र किञ्चित् विशिष्टविषयः अस्ति अस्माकं सविपदस्य क्रियापदस्य सम्बन्धः कर्तृपद तेन भवति खलु कर्तृ कर्तृपदम् उत्तरपद उत्तर उत्तरपद पदविशेषणमस्ति अथवा अथवा पूर्वपदविशेषणम् अस्ति कर्मधारी समासे तथा तथापि उत्तरपदपदप्रधान प्राधान्यम् अस्ति कर्मधारीयसमासः नाम उत्तरपदप्राधान्यमस्ति तावत् एव अवगन्तव्यम् तस्य अग्रे इदानीम् अस्माकं सविधे समयः नास्ति तदर्थम् उत्तरपदप्राधान्यम् इति अवगन्तव्यम् अनन्तरं द्वन्द्वसमासः रामः च कृष्णः च रामकृष्णौ इत्यस्मिन् वाक्ये रामकृष्णौ गच्छतः इत्यस्मिन् वाक्ये कस्य पदस्य प्राधान्यमस्ति उभयपदो हा सत्यं हा अत्र उभयपदार्थ पदार्थप्रधानः उभयपद पदार्थप्रधानः द्वन्द्वसमासः इति उच्यते उभयपदस्य प्राधान्यम् इति अत्र द्वन्द्वसमासः अस्ति चेत् अनन्तरं अनन्तरं त्रिनत्रः इति पश्यामः त्रिनत्रः त्रिनत्रः गच्छति कः गच्छति तत्र नेत्रं गच्छति वा गच्छति वा यस्य नेत्रयमस्ति सः गच्छति सत्यं बहु सत्यं समीचीनं सुधाय समीचीनमेव नाम त्रीणि अपि न गच्छति नेत्रमपि नागच्छति यस्य नेत्रत्रयमस्ति सः गच्छति नाम एतत् बहुव्रीमासः बहुव्रीषमासः अत्र बहुव्रीषमासः अस्ति सत्यं अन्यपदप्राधान्यं त्रीणि नेत्रं न यस्य नेत्रत्रयमस्ति सः गच्छति अतः अन्यपदप्राधान्यमस्ति बहुव्रीहिसमासः अत्र तावदेव अस्माकम् अवधानं पूर्वपदप्राधान्यमपि अस्ति अव्ययी अव्ययी अव्ययीभाव उदाहरणार्थम् उपवृक्षम् तद् अद्य अस्माकम् अवधानं तस्मिन् न भवति अस्तु तर्हि तावदेव अत्र पश्यामः सामान्यरूपेण यदि उदाहरणम् उदाहरणार्थं उन्नतः बालकः उन्नतः बालकः गच्छति यदि वयं अस्तु उन्नतः बालकः बालकः इति पुल्लिङ्गपदमस्ति खलु अतः उन्नतः अपि पुल्लिङ्गपदमस्ति इदानीं स्त्रीत्वमस्ति चेत् उन्नता बालिका उन्नता बालिका गच्छति तत् कृपया हा उन्नता बालिका गच्छति तु अत्र स्त्रीत्वमस्ति खलु यथा उन्नतबालकः गच्छति कर्मधारेयसमासः तथा स्त्रीत्वमस्ति तत्र पुंवद्भावः इति भवति नाम उन्नता इति न उन्नतबालिका समस्तफलमिति उन्नतबालिका गच्छति अतः अस्माभिः अत्र दृष्टं यत् अस्मिन् लेखे दशमकक्षायाः अत्र दशमीकक्षा खलु दशमी दशमीकक्षा इति व्यस्तप्रयोगः दशमीकक्ष्या किन्तु समस्तपदं भवति चेत् यथा उन्नतपालिका तथा दशमकक्ष्या दशमी इकारस्य Uh, पुोद्भावः कृत्वा दशमकक्ष्या इति भवति अथवा दशमी दशम्याः कक्ष्यायाः दश्म, व्यस्तुप्रयोगः वक्तुं शक्यते अनन्तरं पुंवोद्भावं कृत्वा दशमकक्षायाः इति भवति तत्र कर्मधारेसमासः इत्यस्मिन् पुंवोद्भावः भवति तु अत्र प्रश्नः भवति कुत्र पुं पुंवद्भावः नाम पुंवद्भावः नाम स्त्रीलिंग स्त्री स्त्रीलिङ्गत्वमस्ति किन्तु पुंवत् पुंलिङ्ग इव नाम पुंवद्भावः तु अत्र दशमीकक्ष्या इति दशमकक्ष्या अत्र कर्मधारेसमासः प्रश्नम् आगच्छति यदि दशमकक्षा अस्ति तर्हि दशमकक्षायाः इति अस्ति तर्हि नवमदशमकक्षा कक्षयोः इति किमर्थं न भवति यथा अत्र दशमकक्षायाः यथा पुः भवति तथा नवमदशमकक्षयोः इत्यस्मिन् पदे किमर्थं पूवद्भावः न भवति इति प्रश्नः तर्हि उत्तरं किम् अत्र उत्तररूपेण अन्यत् उदाहरणं वदामि रामः च कृष्णः च रामकृष्णौ इति अस्माभिः दृष्टं द्वन्द्वसमासः अत्र रामः रामं बोधयति Hmm. प्रथमतया अहं वदामि एकः हा सिद्धान्तः अस्ति सिद्धान्तः नाम सामानाधिकरणीयम् भूमद्भावः तत्र भवति यत्र सामानाधिकरणीयमस्ति सामानाधिकरण्यस्य अर्थः कः इति प्रश्नः उदेति अत्र सामानाधिकरण्यं नाम समानः hmm, आधारः आधारः समानः त्यात् येषु समस्तपदेषु समानः आधारः आधारः अस्ति समानः आधारः अस्ति चेत् तत्र पूमोद्भावः भवितुमर्हति समासे यत्र यत्र समानः समानः आधारः अस्ति तत्र तत्र पूमोद्भावः अपि सम्भवति इति समानः आधारः नाम सामानाधिकरणीयम् तो अत्र सामानादिकरणीयं नाम कीदृश आधारः कस्य केन केन प्रकारेण कया रीत्या आधारः समानः स्यात् इति प्रश्नः अत्र राम रामः च कृष्णः च रामकृष्णौ इति उदाहरणं पश्यामः रामः रामं बोधयति कृष्णः कृष्णं बोधयति अत्र सामानादिकरणीयम् इत्युक्ते समानविभक्तिकत्वं समानविभक्तिकत्वम् अस्ति न वा इति प्रश्नः रामः च कृष्णः रामकृष्णौ तु अत्र रामः कृष्णः इत्यनयोः समानविभक्ति विभक्तिकत्वम् अस्ति वा रामः का विभक्तिः हा कृष्णः का विभक्तिः अत्र राम रामकृष् रामकृष्णौ रामः कृष्णः च रामकृष्णौ अत्र अस्मिन् समस्तपदे समानविभक्तिकत्वम् अस्ति किन्तु एकार्थबोधकत्वं समानाधिकरणीयम् अपि अपेक्षितम् अत्र उदाहरणार्थं नीलोत्पलं नीलोत्पलं नाम नीलं च तत् उत्पलम् उत्पलं नाम कमलं खलु नीलोत्पलम् अत्र नीलपदेन नीलगुणविशिष्टं द्रव्यं बोध्यते नील नील उत्पलमस्ति चेत् नील नीलौत्पलं नीलोत्पलम् इति अस्मिन् पदे नीलपदेन केन कः को अर्थः नीलपदेन नीलगुणविशिष्टं द्रव्यं बोध्यते उत्पलपदेन उत्पलत्वजातिविशिष्टं पदार्थं बोध्यति बोधयति इदानीं समानादिकरणीयम् अस्ति नाम उत्पलं नील उत्पलम् इत्यस्मिन् पदे नी नीलपदस्य यः अर्थः बोधय यः अर्थं बोधयति तमेव अर्थं बोधयति अपि उत्पलं नाम अवगम्यते अवगम्यते वा इति प्रश्नः अत्र अर्थात् अत् अत्र रूप समानविभक्तिकत्वरूपसमानादिकरणीयमपि अपि अस्ति एकार्थबोधकत्वरूपसमानादिकरणीयमपि अस्ति अत्र नाम नीलौत् नीलौत्पलम् इत्यस्मिन् पदे कश्चन सस्यमस्ति किं किञ्चन सस्य सस्यमस्ति तत्र नी नीलौत्पलम् इति उच्यते ब्लू लोरस् इति खलु तु नीलम् इति लोरस् ती अस्य विशेषणमपि अस्ति उत्फलमपि लोरस् एव अतः नीलौत्पलम् इति अस्मिन् वा इत्यस्मिन् समस्तपदे नीलम् इत्यस्य समानार्थकः समानः समानः अर्थः उत्पलमपि अस्य समानः समानः अर्थः अतः समान समानविभक् विभक्तिकत्वमपि अस्ति नीलः अपि प्रथमा विभक्तिः उत्पलमपि प्रथमा विभक्तिः अनन्तरम् अर्थः अपि समानः नीलः नाम तदेव लोडस् उत्पलमपि तदेव परन्तु नीलः इत्युक्ते खलु किन्तु कस्य वर्णः कस्य वर्णः उत्पलस्य अतः समान समान अर्थः अस्ति नाम पुनः वदामि नीलः नाम नीलगुणविशिष्टं द्रव्यं किं द्रव्यम् उत्पलम् नीलगुणविशिष्टं द्रव्यं बोध्यते पलं द्रव्यं किम् उत्पलम् अनन्तरम् उत्पलं नाम उत्पलत्वजातिविशिष्टः पदार्थः पदार्थः विशिष्टः पदार्थः इति अतः वस्तुः वस् क्षम्यतां वस्तुसमानमेव वस्तु नाम उत्पलं नीलं नाम नीलनाम उत्पलं उत्पलमपि नाम उत्पलं किन्तु अत्र अतः तत्र समानादिकरणीयमस्ति किन्तु रामः च कृष्णः च इत्यत्र समानविभक् वि समानविभक् विभक्तिः कत्वमस्ति रामः अपि प्रथमा विभक्तिः कृष्णपि प्रथमा विभक्तिः रामः रामकृष्णौ इत्यस्मिन् पदे किन्तु समान बोधकत्वं नास्ति रामः तु रामः अस्ति कृष्णः कृष्णः पृथक् किन्तु नीलनाम उत्पलं रामनाम कृष्णः इति न खलु भेदः अवगतः वा एतत् स्पष्टं स्यात् एतत् मुख्यबिन्दुः अस्य अस्य पाठ पाठ अस्य बिन्दुः मुख्यबिन्दुः बिन्दुः एषः यदि अवगम्यते स सर्वम् अवगन्तुं शक्यते समानादिकरणीयं नाम समानविभक्तिकत्वमपि स्यात् समानार्थबोधकत्वमपि स्यात् रामकृष्णौ इति अस्मि इति समस्तपदे समानविदक् विभक्तिकत्वमस्ति एव किन्तु समानार्थबौद्धकत्वं नास्ति समानार्थबोद्धकत्वं तु नास्ति अवगच्छति वा श्रीवासमहोदयत्पलः नीलोत्पलं यत् तत्र पदद्वयमपि एकमेव पदार्थं सूचयत् अत्र रामः कृष्णः इत्युक् इति भिन्नः रामः नीलः अपि पुष्पं सूचयति उत्पलः अपि पुष्पमेव सूचयति सत्यं परन्तु अत्र रामः रामः इति रामः कृष्णः कृष्णः पृथक् रामः इत्युक्ते कृष्णः न कृष्णः इत्युक्ते रामः न सत्यं सत्यं तु अत्र समानाधिकरण्यं यत्र अस्ति तत्र समानविभक्तिकत्वमस्ति तत्र रामकृष्णवती अस्मिन् पद पदे समानविभक्ति वि समानविभक्तिकत्वं तु अस्ति किन्तु स समानार्थबोधकत्वं नास्ति समानविभक्तिकत्वमस्ति समानार्थबोधकत्वं नास्ति किन्तु नीलोत्पले द्वयो अपि अस्ति अस्तु समीचीनमस्ति अनन्तरं अतः वयं वक्तुं वक्तुं शन् शक्नुमः यतोहि वयं जानीमः इदानीं सामानादिकरणीयं यस् यत्र अस्ति तत्र पुमोद्भावः भवितुम् अर्हति समासे तु अत्र कर्मधार्यसमासः अस्ति चेत् नाम नीलोत्पलम् इति उदाहरणं तत्र पुमोद्भावः भवति अतः दशमकक्षा इत्यस्मिन् पदे एषः प एतत् पदं कर्मधारे यथा नीलोत्पलमस्ति तथा दशमकक्षा अपि अपि अस्ति नाम कक्षा नाम कक्षा दशमी दशमी अपि कक्षा खलु यथा नीलं नीलम् उत्फलं ना, नाम नीलमपि पुष्पम् उत्फलमपि पुष्पम् अत्र दशमी कक्षा नाम दशमकक्षा समस्तपदं तत्र कक्षा अपि कक्षा, कक्षा दशमी नाम कक्षायाः विशेषमेव गच्छति वा प्रश्नः अस्ति चेत् पृच्छन्तु सर्वे अत्र वयं वक्तुं शक्नुमः वा द्र, भावमासः अस्ति चेत् यथा रामकृष्णौ तत्र समाना कदापि कुत्रापि नास्ति अतः द्वन्द्वसमासः अस्ति चेत् समा समानादिकरणीयं नास्ति अतः पुंवद्भावः न भवति इदानीं दशमकक्षा इति समस्तपदे पुद्भावः अस्ति यतोहि समानादि करणीयमस्ति कक्षा अपि कक्षा अस्ति दशमी अपि कक्षा अस्ति किन्तु नवमदशमकक्ष कक्षयोः इत्यस्मिन् समस्तपदे स्थितिः भिन्ना अस्ति अत्र नवमदशमकक्षयोः अत्र दश दशमकक्षा इति वदामश्चेत् तत्र केवलं कर्मधारीयसमासः अस्ति किन्तु नवमदशमकक्षयोः इति अस्मिन् अत्र द्वन्द्वसमस्त द्वन्द्वसमासगर्भ कर्मधारीयसमासः अस्ति गर्भ कोऽपि महिला गर्भवती अस्ति चेत् अन्ते शिशुः अस्ति खलु गर्भ गर्भवत् गर्भवती स्त्री uh, uh. तु अत्र अत्र द्वम दश नवमदशमकक्षयोः इति समस्तपदं तत्र नवमदशम इति द्वन्द्वसमासः अनन्तरं सः द्व सः द्वन्द्वसमासः कक्षा इति अस्य विशेषणम् अतः कर्मधारीसमासः अस्ति अतः द्वन्द्वसमासगर्भ कर्मधारीसमासः इति उच्यते खलु इतरेतर अत्र अस्माकं पुनः अहं वदामि अस्माकं सविधे समयः किन्तु सत्यम् इदानीम् अहं वक्तुं न अस्माकं सविधे समयः किन्तु द्वन्द्वसमासः इति अस्ति नवमदशम कक्षयोः इत्यस्मिन् वाक्ये द्वन्द्वसमासगर्भ द्वन्द्वगर्भद्वन्द्वगर्भ कर्मधार्यसमासः इति अस्ति तु अत्र किं भवति यतोहि द्वन्द्वसमासः अस्ति तत्र समानादिकरणीयं नास्ति नाम नवमकक्षा भिन्ना अस्ति दशम नवमी कक्षा भिन्ना अस्ति दशमीकक्षा भिन्ना अस्ति यथा रामकृष्णौ रामभिन्नं क रामभिन्नपदं कृष्णभिन्न भिन् भिन्नवस्तु अस्ति अत्र नवमीकक्षा भिन्ना दशमीकक्षा भिन्ना अतः सामानादि करणीयं नास्ति अतः पुंवद्भावः नास्ति इति मुख्य अंशः अस्ति अत्र तर्हि प पश्यामः अत्र उदाहरणं दत्तमस्ति पञ्चम उदाहरणानि त्रीणि उदाहरणानि दत्तानि खलु अत्र व्यस्तप्रयोगः अस्ति पञ् प्रथम उदाहरणस्य पञ्चम्याः षष्ठ्याः च कक्षायाः पञ्चम्याः षष्ठ्याः च कक्षायाः अत्र किं भवति इति प्रथमतया पञ्चमी च षष्ठी च पञ्चमीषष्ठ्योः पञ्चमीषष्ट्यौ इति द्वन्द्वसमासः अस्ति पञ्चमी च षष्ठी च पञ्चमीषष्ट्यौ इति द्वन्द्वसमासः अस्ति प्रथमाविभक्तिः द्विद्विवत्समस्ति प्रथमाविभक्तिः नाम नदी शब्द शब्दवात् अस्ति नदी नद्यौ नद्यः नदी इत्यस्य प्रथमाविभक्तिः द्वि द्विवचनरूपं किं वदतु नदी प्रथमाविभक्ति प्रथमाविभक्ति द्विवचनम् अन्यत् किमपि वदति वा नद्यौ इति अस्ति नदी नद्यौ नद्यः अतः अत्र पञ्चमीषष्ठ्यौ इति ईकारान्त प्रथमा विभक्ति द्विवचनरूपं पञ्चमीषष्ठ्यौ पञ्चमी च षष्ठी च द्विवचने पञ्चमीषष्ठ्यौ नद्यौ इति शब्दवात् अत्र द्वन्द्वसमासः अस्ति अनन्तरं अत्र षष्टिविभक्तिः अस्ति अतः पञ्चम्याः च षष्ठ्याः च पञ्चमीषष्ट्यौ तयोः पञ्चमीषष्ट्योः षष्टिविभक्ति द्वन्द्वसमासः पञ्चमीषष्ठ्यौ पञ्चमीषष्ठ्योः इति पञ्चमीषष्ठ्योः अनन्तरं पञ्चमीषष्ट्योः इति कक्षयोः इत्यस्य विशेषणमस्ति पञ्चमीषष्ट्योः कक्षयोः विशेषणमस्ति अत्र चिन्तयतु यथा अस्ति नीलोत्पलं उत्पलम् इत्यस्य विशेषणं नील उत्पलमपि पुष्पं नील अपि पुष्पष्पस्य विशेषणम् अतः समानादि करणीयमस्ति अत्र अपि एषा अपि एषा एषा एव स्थितिः पञ्चमीषष्ठयोः कक्षयोः अनन्तरं पञ्चमीषष्ठक पञ्चमीषष्ठकक्षयोः इति कर्मधार्यसमासः अस्ति अतः शुद्धं शुद्धं इति स्तम्भे स्तम्भे अत्र लिखितमस्ति पश्यन्तु पञ्चमीषष्ठकक्षयोः अत्र पञ्चमी इति स्त्रीलिङ्गत्रीलिङ्गत्वं दृश्यते किन्तु षष्ठ इति अस्मिन् पुंवोद्भावः अनन्तरं कक्षयोः किमर्थमित्युक्ते पञ्चमी ष पञ्चमी षष्ट्यौ इति द्वन्द्वसमासः सः द्वा सः द्वन्द्वसमासः कक्ष्या इत्यस्य विशसनम् अतः पञ्चमी षष्ठकक्ष्या इति भवति तत्र कर्मदारी हा कर्मधारी अस्ति पञ्चमीषष्ठी इति द्वन्द्वसमासः कक्ष्या इति अस्य विशेषणम् अतः नील नीलोत्पलम् नीलो इति उदाहरणं पश्यामश्चेत् नील इति उत्पलस्य विशेषणम् अत्र पञ्चमी षष्ठी इति कक्षा इति पदस्य विसर्शनं तत्र पञ्चमी पञ्चमीष पञ्चमीषष्ट्यौ पञ्चमीषष्ट्यौ क्षम्यतां पञ्चमीषष्ट्यौ नाम एकं पदं समस्तपदं नाम एकमेव अत्र षष्टप्रयोगः पञ्चमी पञ्चमीषष्ट्यौ इति समस्तपदं क्षम्यतां पञ्चम्याः षष्ठ्याः अथवा पञ्च पञ्चमीषष्ठी प्रथमाविभक्तौ पञ्चमीषष्ठी व्यस्तप्रयोगः तत्र पद पदद्वयमस्ति किन्तु पञ्चमीषष्ट्यौ इति द्वन्द्वसमासः एकमेव पदमस्ति एकमेव पदम् अतः अत्र कक्षा इत्यस्य विशेषणं पञ्चमीषष्ठ कक्षा पञ्चमीषष्ठ्यौ अत्र द्विवचनं द्विवचनान्त लोपः भवति पञ् पुमोद्भावः कृतः पञ्चमीष पञ्चमीषष्ठकक्षा षष्टिभक्तिः अस्ति चेत् पञ्चमीषष्टिकक्षयोः अवगम्यते वा विषयः नूतनः अतः समयः बहु समयः अपेक्षते तदर्थं अपि एतादृशी गतिः अस्ति अस्तु मम प्रश्नः अस्ति अस्मिन् किञ्चित् इतोपि चर्चां कर्तुम् इच्छन्ति वा किन् यावत् अवगमनं तावदेव अपेक्षते इदानीम् अस्मिन्नेव विषये किञ्चित् इतोपि कर्तुमिच्छन्ति अथवा अग्रे अन् अन्य अन्यं लेखं कर्तुमिच्छन्ति वा नाम विषयः नूतनः अस्ति अतः कति कियान् गम्भीर किय कियता गम्भीररूपेण कर्तुमिच्छा बहुव्रि बहुव्रीहिः समासा अस्ति अपि अस्ति किन्तु अस्तु एवं कुर्मः शीघ्रमेव द्वितीयं द्वितीयम् उदाहरणमस्ति तदपि पश्यामः प्रथमद्वितीयपङ्क्तौ पङ्क्त्योः इति प्रथमद्वितीयपङ्क्त्योः इति दोषाय अस्ति व्यस्तप्रयोगं पश्यामः प्रथमायाः द्वितीयायाः च पङ्क्त्याः अत्र पङ्क्तिः इति स्त्रीलिङ्गपदमस्ति खलु पङ्क्तिः अतः हा अतः प्रथमा द्वि द्वितीयौ इति प्रथमा द्वितीयौ इति समस्तपदमस्ति प्रथमाद्वितीयौ पङ्क् पङ्क्त्यौ पङ्क्तिः पङ्क्तौ पङ्क्त्यः न पङ्क्तिः इति पङ्क्तिः पङ्क्तिः अत्र प्रथमा प्रथमाद्वितीयौ पङ्क्ति इति भवति प्रथमाविभक्तौ अनन्तरं प्रथमाद्वितीयपङ्क्ति इति भवति प्रथमा द्वितीय इति पङ्क्तिशब्दस्य विशेषणं भवति अतः द्वन्द्वगर्भकर्मधारे समासः भवति अस्तु एतत् सर्वं भवन्तः शृण्वन्तु पश्यामः आगामिसप्ताहे अन्ये बहु किमपि घण्टाद्वयम् अस्मिन् चर्चां कर्तुं शक्यते कर्तुं शक्नुमः किन्तु अहं चिन्तयामि नूतनविषयः अतः अग्रे गच्छामः एतत् शृण्वन्तु अनन्तरं ता। पश्यामः प्रश्नाः सन्ति चेत् तदपि दृश्यताम् आगामिसप्ताहे अस्तु रामकृष्णः अग्रे रामकृष्णमहोदयभावः शिष्यः श्रीमन् यद् लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य तद् लिङ्गं तत् वचनं सा च विभक्तिः विशेषणस्त विशेषणस्यापि इत्येषः नियमः सर्वत्र अन्वितः भवति उत न आचार्यः यत्र विशेषणविशेष्यभावः तत्र एतस्य नियमस्य अन्वयः भवति एव शिष्य एषः मम मित्रम् इति वाक्ये नियमस्य तर नि अन्वय कु नृश्य है आचार्य यदेश्यय भाव न तो विशेषण विशेष अतः तन्वय नास्त उद्देश्य नाम आचार्य अ पुरोद्दृश्यमानम् उद्दिश्य मित्रत्वं विधीयते अतः उद्देश्यविधेयभावः पुरोद्दृश्यमानः जनः पुमान् अतः पुंलिङ्गशब्देन तस्य निर्देशः मित्रशब्दः नियतलिङ्गः तस्य नपुंसकत्वं नियतम् अतः नपुंसकः एव तावता विशेषणविशेष्यभावस्य अन्य अनव्यवः अनन्वयः कथं विशेषणविशेष्यभावनियमः यल्लिङ्गम् इति श्लोकेन सूचयामः सूचमानः विशेष्यनिघ्नशब्देषु एव अन्ताशेशब्द नाम आचार्य ये शब्द त्रीसु लिंगुवानी ते विशेष निघनाच्यता उत्तम उत्तम उत्तम उत्तम लिंगुपूस अतः सशेषन एव श्रेष्ठ स्थूल सूक्ष्मदय शब्द अभी मित्रशबदादय न तथा सुय मित्रश नपुंसके सुहृदे मित्र मित्र सु, मित्री रूपी ना मित्री पुल्लिंगं दृश्यते खुद लोके आचार्य आँ दृश्य है किंतु तर सुहृद्ध न प्रुत सूर्य सुहृदे तो सह नपुंसक शिष्य श्रीमन उद्देश्युक्ताचन उदाहरण अहम ज्ञात आचार्य उदाहवाक बहूँ लोकते तथा अहिंसा परमो धर्म दुर्बल से बल हरि गणेश मूषक विदेशु धन विद्या स ही वेद परम अस्तु श्रीसारांशः सारांशं यद्लिङ्गयद्वचन यद्विभक्तिनियमं वयं जानीमः इत्युक्ते विशेषणविशेषशब्दयोः लिङ्गवचनरूपयोः समानता आवश्यकम् उदाहरणात् अहं दत्तां दत्तं श्वेतः पुरुषः श्वेटा महिला च श्वेतञ्चित्रं पश्यतः सुन्दरं वृक्षस्य सुन्दरी शाखायां सुन्दरं पुष्पं विकसति परन्तु केषुचित् स्थलेषु तन्नियमभङ्गं वर्तते नाम्ना लिङ्गसमानता अभावः दृश्यते उदाहरणात् एषः मम मित्रं मित्रशब्दाय अर्धद्वयमस्ति मित्रः इत्युक्ते रविः मित्रम् इत्युक्ते सुहृत् एतस्मिन् वाक्ये एषः इति पुंलिङ्गशब्दः मित्रम् इति नपुंसकलिङ्गशब्दः पुरोदृश्यमानम् उद्दिश्य मित्रत्वं विधीयते अतः उद्देश्यविधेयभावः मित्रशब्दः नियतलिङ्गः न कदापि पुंलिङ्गस्त्रीलिङ्गपरिवर्तनं भवति कुतो विशेषेण विशेषभावः इव उदाहरणं उत्तमः उत्तमः उत्तमं दीर्घः दीर्घः दीर्घं श्वेतः श्रेतः श्रेतं श्रेष्ठः श्रेष्ठः श्रेष्ठं सूक्ष्मः सूक्ष्मः सूक्ष्मः सूक्ष्मं मित्रं शब्दम् इव न असदृश आसदृशशब्दः अन्यानि उद्देश्यविधेयभावपदानाम् उदाहरणानि अहिंसा परमो धर्मः अहिंसा स्त्रीलिङ्गशब्दः धर्मः पुल्लिङ्गः दुर्बलस्य बलं हरिः बलं नपुंसकं नपुंसकलिङ्गं हरिः पुंलिङ्गं गणेशस्य वाहनं मूषकाः वाहनं नपुंसक मूषकाः पुंल्लिङ्गं सर्वदेशेषु धनं धनं नपुंसकविद्या स्त्रीलिङ्गं स हि वेदः परमं ज्योतिः परमं नपुंसक ज्योतिः पुंलिङ्गं hmm, अस्तु समीचीनम् आ, एत, आ, हा एतत् उद्देश्यविधेयभावः अपि किञ्चित् नूतनविषयः नियतलिङ्गाः दृष्टाः अस्माभिः पूर्वमेव मित्रम् इति नूतनविषयः नास्ति किन्तु अत्र उद्देश्यविधेयभावः नाम किम् अत्र एषः मम मित्रम् अत्र एषः एषः नाम पुरोदृश्यमानम् अत्र एषः अनन्तरं मित्रम् इति यद् विधीयते त यत्र किमपि नाम पुरतः दृश्यमानम् अस्ति पु पु एषः पुर पुरतः दृश्यमानः अथवा दृश्यमानम् उद्दिश्य पुरतः दृश्यमानः पुर पुरतः पुरतः दृश्यते इति अर्थः नाम यत्र कोऽपि अथवा किमपि पुरतः अस्ति तस्य सम्बन्धे किमपि वर्णनं कर्तुम् इच्छा तस् तस्मिन् अवसरे एतादृशी एतादृशः सिद्धान्तः भवति नाम मम संशयः किञ्चित् अस्ति अत्र uh, पुरतः वा पुरा दृश्यमानं वा पूर्वं दृष्टं एषः एषः कः मम मित्रं सो पूर्वमिति अहं चिन्तयामि पुरतः इति न सत्यं किन्तु दृश्यमानं सो प्रोदिश्यमाणं पुरा पूर्वं दृष्टं किमर्थमित्युक्ते उद्दिश्य पदस्य अर्थं यत् यः पूर्वं दृष्टं प्रथमं वा पूर्वमित्युक्ते बिफोर् फस्ट् हा सत्यं यत्किमपि भवेत् अन्यस्य अन् नाम वार्तालापः प्रवर्तते खलु जनद्वयमस्ति अनन्तरं जन तृतीयजनस्य सम्बन्धे किम किमपि वक्तुमिच्छति एषः मम मित्रं जनद्वयमस्ति मित्रं कस्यचित् सुहृदस्ति तो एषः मम मित्रम् अन इत् इत्युक्ते यः पुरतः अस्ति तृतीय नाम रामः श्यामः नाम अनन्तरं कृष्णः तु रामः अनन्तरं श्यामः श्यामः रामस्य मित्रमस्ति किन्तु कृष्णः श्यामं न जानाति न जानाति अतः श्यामस्य सम्बन्धे परिचयः स्यात् तु रामः वदति श्यामः मम मित्रं यतो हि कृष्णः श्यामं न जानाति खलु तो श्यामस्य सम्बन्धे किमपि वक्तुमिच्छति श्यामः एषः श्यामः मम मित्रम् इति वदति पुरतः पुरा तस्य नाम अर्थः अस्तु अतः अत्र मुख्य समानमेव समानः अर्थः नाम यस्य परिचयः न अस्ति अत्र पुरुषः अस्ति किमपि वस्तु अपि भवितुमर्हति तस्य सम्बन्धे किमपि वक्तव्यमस्ति अन्यत् उदाहरणम् अत्र अत्र दम दत्तमस्ति एव खलु पूर्वमेव जानाति श्यामं पोर, किन्तु कृष्णः न जानाति अतः परिचयः भवति कृष्णः न जानाति परन्तु जाना रामः जानाति रामः जानाति किन्तु रा किन्तु कृष्णस्य कृते रामः भवति कृष्णः नास्ति चेत् रामः एषा मम मित्रमिति न वदति खलु कृष्णः आगतः अस्ति अतः रामः वदति अन्यत् उदाहरणम् अत्र विदेशेषु धनं विद्या तो कोऽपि विदेशेष् विदेशे विदेशानां विदेश विदेशानां सम्बन्धि न जानाति तु यः जानाति सः वदति विदेशेषु धनं विद्या विद् विदेशे विदेशानां सम्बन्धे विदेशानां सम्बन्धे वक्तुम् इच्छा अस्ति येन अन्यस्य परिचयः भवति भवेत् इति अस्ति अतः अत्र अहं वदामि यत्र विदेशविधेयभावः अस्ति तत्र विशेषेण विशेषभावः भवितुमर्हति नापि भवितुमर्हति नाम विशेषनिग्नता अपि भवितुमर्हति किन्तु अत्र नियतलिङ्गानां विषये उक्तमस्ति यतोहि नियतलिङ्गः नियतलिङ्गत्वमपि भवितुं भवितुमर्हति उद्देश्यविधेयभावः यत्र विशेषणविशेषभावः भवति तत्र विशेषनिग्नता न भवति एव क्षम्यतां नियतलिङ्गता न एव विशेषणविधे विशेषभावः चेत् नियतलिङ्गता न भवति केवलं निग्नता भवति उद्देश्यविधेयभावः अस्ति चेत् नियतलिङ्गता अपि भवितुमर्हति विशेषनिग्नता अपि भवितुमर्हति किन्तु यतोहि नियतलिङ्गता अपि भवति अतः किञ्चित् विलक्षणविषयः अस्ति यतोहि विशेषणविशेषभावे नियतलिङ्गता न भवति एव अवगतति उदाहरणार्थम् अत्र लिखितमस्ति एषः मम मित्रं तु मित्रमिति शब्दः अस्ति किन्तु एषः इदानीं परिचयः दीयते खलु कृष्णः आगतः अस्ति अतः रामः वदति श्यामस्य सम्बन्धे एषः मम मित्रं यदि मित्रम् मित्रम इत्यस्य स्थाने बुद्धिमान् इति वक्तुमिच्छति कृष्णः आगच्छति अनन्तरं रामः भवति एषः श्यामः बुद्धिमान् इति तु तत्र विशेष्यनिग्नत्वमस्ति विद्देश्यविधेयभावः अपि अस्ति विशेषविशेषभावः अपि अस्ति एषः बुद्धिमान् तु नाम अत्र पुरोदृश्यमानः श्यामः तं प्रति बुद्धिमत्वं विधीयते अत्र अस्मिन् लेखे मित्रत्वं विधीयते किन्तु बुद्धिमत्वमपि विधीयते तदपि भवितुमर्हति अवगम्यते वा प्रश्नः अस्ति किं मोन मोनव्रतं न अपेक्षते अतः विशेषणविशेष्यभावः यत्र अस्ति तत्र यल्लिङ्गं यद्वचनम् इति इत्यादि प्रवर्तते उद्देश्यविधे विधेयभावः यत्र अस्ति तत्र विशेषणविशेष्यभावः भवितुम् अर्हति अत्र यत्र मित्रम् अस्ति यत्र विद्या अस्ति यत्र धर्मः अस्ति मूषकः ज्योतिः अस्ति तत्र विशर्णविशेषभावः न भवति नियतलिङ्गता अस्ति एव किन्तु विश् पदं यद् यत्पदं यद विधीयते यदि विशेष निग्नपदम् अस्ति तर्हि विसर्णविशेषभावः भवति उदाहरणार्थं श्यामः इति श्यामः इत्यस्य स्थाने सीता तौ रामः अस्ति कृष्णः आगतः अस्ति रामः वदति एषा मम मित्रं तत्र एषा मम मित्रम् इत्यस्मिन् वाक्ये उद्देश्यविधेयभावः अस्ति नियतलिङ्गता अपि अस्ति अतः नि विशेषविशेषभावः नास्ति किन्तु यदि यदा कृष्णः आगतः तर्हि तस् तस्मिन् अवसरे यदि रा यदि रामः वदति एषा सीता बुद्धिमती तदपि विशेष तदपि उद्देश्यविधेयभावः अस्ति किन्तु तस्मिन् अवसरे सः वक्तुं न शक्नोति एषा सीता बुद्धिमान् एषा बुद्धिमान् तु वक्तुं न शक् वक्तुं न एषा बुद्धिमती इति वदति इति वद इति हा इति वदति तु तत्र विशेषविशेषभावः अपि अस्ति वि विधेयभा विदेशः उद्देश्यविधेयभावः अपि अस्ति तु कुत्रचित् उभयमपि अस्ति किन्तु अस्मिन् लेखे ज्ञात्वा एव नियतलिङ्गतायाः विशेषः आगतः अस्ति उद्देश्यविधेयभावः अस्ति नियतलिङ्गता अस्ति अतः विशेषणविशेषभावः नास्ति किञ्चित् स्पष्टता जाता अथवा ब्रह्म एव महोदय कथं प्राति हा प्रातिपदिका का, का महोदय किं uh, कस्मिन् उदाहरणे अत्र न कदा कुत्र यत्र कुत्रापि कथं वा जानीमः विशेषभावः न भवेत् इति तत् पदस्य कीदृशपदम् अस्ति इति इति ज्ञानमपेक्षितमस्ति पदं पूर, पूर, पूर्वमेव ज्ञानम् अपेक्षितमस्ति उदाहरणार्थम् अत्र लिखितमस्ति उत्तम उत्तमपदं त्रिषु लिङ्गेषु भवति तादृशं ज्ञानम् अपेक्षितमेव न जानाति चेत् वयं किमपि वक्तुं न शक्नुमः तादृशं ज्ञानं न यदा एषः मम मित्रं इत्यस्मिन् उदाहरणे तत्र तदा भवेत् इति कथं वा एषः मम मित्रम् इति दोषाय न इति जलं वा जानीमः अस्तु अस्तु एषः मम मित्रम् इत्यस्य आकृतिः उद्देश्यविधेयभावस्य आकृतिः एव तस्मिन् अवसरे यदि यद्विधीयते तत् पदं नियत् लिङ्ग् लिङ्गपदमस्ति तदा लिङ्गं नियत् निश्चितमेव भवतः प्रश्नः प्रायः न अवगतः किन्तु अत्र मित्रमिति नियतलिङ्गपदमस्ति खलु अतः विशेषणविशेषभावः दिशेश्य नास्ति उद्देश्यविधेयभावः अस्ति अतः विशेषेण विशेषभावः नास्ति इति न ना। पदस्य कीदृशगुणमस्ति इति ज्ञात्वा एव वयं वक्तुं शक्नुमः मित्रमित्यस्य स्थाने बुद्धिमान् इति अस्ति चेत् विशेषणविशेषभावः भवति किमर्थमिति इत्युक्ते त्रिषु लिङ्गेषु भवति तत् बुद्धिमत् बुद्धिमान् बुद्धिमती किन्तु मित्रमिति पदम् एवं न भवति अस्मिन् अर्थे निपुंसकलिङ्गपदमस्ति एतादृशपदानि उदाहरणानि अन्यत् उदाहरणं वा अन्यत् उदाहरणं तु उदाहरणं भवता दृश् उक्तमेव अधः लिखितमस्ति पुस्तके दृश्यते धर्मः मूषकः ज्योतिः तु मित्रं मित्रम् इति नियतलिङ्गम् अस्ति किन्तु तद्विहाय अत्र सुदाश् सुदर्शनस्य सुदर्शनमहोदयस्य ले अस्मिन् सप्ताहे सुदर्शनमहोदय वयं कर्तुं न शक्नुमः आगामिसप्ताहे कर् कुर्मः किन्तु अन्ते लिखितमस्ति खलु एतादृशान् प्रयोगान् वयं विरलतया पश्यामः खलु विरलतया तु मित्रम् अस्ति किन्तु बहूनि अस्मिन् सन् अस्मिन् मित्रमस्ति मित्रमिति प्रसिद्ध उदाहरणमस्ति मित्रम् अस्तु तर्हि सर्वे कृपया शृण्वन्तु <laughs> कृपया शृण्वन्तु अनन्तरम् आगामिसप्ताहे प्रश्नाः सन्ति चेत् अथवा अस्माकं गूगल् ग्रूप्स् मध्ये कोपि कदापि प्रश्नं लेखितुं शक् शक्नोति तत्र प्रेषितुं शक्नोति अस्तु अस्तु तर्हि विरमाम शिवरात्रि धन्यवाद धन्यवाद शुभरात्रि